पञ्चदशः सर्गः ते तु ताम् रजनीमुष्यब्राह्मणा वेदपारगाः उपतस्थुरुपस्थानम् सह राजपुरोहिताः अमात्याबलमुख्याश्च मुख्याये निगमस्य च राघवस्याभिषेकार्थे प्रीयमाणाः सुसङ्गताः उदिते विमले सूर्ये पुष्ये चाभ्यागते लग्ने कर्कटके प्राप्ते जन्म रामस्य च स्थिते अभिषेकाय रामस्य द्विजयेन्द्रैरुपकल्पितम् काञ्चनाजलकुम्भाश्च भद्रपीठम् स्वलङ्कृतम् रथश्च संयगास्तीर्णो भास्वता व्याघ्रचर्मणा गङ्गायमुनयोः पुण्यात्सङ्गमादाहृतम् जलम् याश्चान्याः सरितः ह्रदाः कूपाः सरांसि च प्राग्वाहाश्चोर्ध्ववाहाश्च तिर्यग्वाहाश्च क्षीरिणः ताभ्यश्चैवाहृतम् तोयम् समुद्रेभ्यश्च सर्वशः क्षौद्रम् दधिघृतम् लाजा दर्भाः सुमनसः पयः अष्टौ च कन्या रुचिरा मत्तश्च परवारिणः स जलाः क्षीरिभिश्चन्ना घटाः काञ्चन पद्मोत्पलयुता भान्तिपूर्णाः परमवारिणा चन्द्रांशविकच प्रख्यम् पाण्डुरम् रत्नभूषितम् सज्जम् तिष्ठति रामस्य वालव्यजनमुत्तमम् चन्द्रमण्डलसङ्काशमातपत्रम् च पाण्डुरम् सज्जम् द्युतिकरम् श्रीमदभिषेकपुरःसरम् पाण्डुरश्च वृषः सज्जः पाण्डुराश्वश्च संस्थितः वादित्राणि च सर्वाणि वन्दिनश्च तथा परे इक्ष्वाकोणान्यथा राज्ये सम्भ्रियेताभिषेचनम् तथा जातीयमादाय राजपुत्राभिषेचनम् ते राजवचनात्तत्र समवेतामहीपतिम् अपश्यन्तो ब्रुवन् को नु राज्ञो नः प्रतिवेदयेत् न पश्यामश्च राजानमुदितश्च सज्जो रामस्य धीमतः इति तेषु ब्रुवाणेषु सर्वांस्तांश्च महीपतीन् अब्रवीत्तानिदम् वाक्यम् सुमन्त्रो राजसत्कृतः रामम् राज्ञो prasthitohyaham त्वरया प्रस्थितो ह्यहम् पूज्या राज्ञो भवन्तश्च रामस्य तु विशेषतः अयम् पृच्छामि वचनात् सुखमायुष्मतामहम् राज्ञः सम्प्रति बुद्धस्य इत्युक्त्वा दः पुरद्वारमाजगामपुराणवित् सदासक्तम् च प्रविश्य स विशाम् नरेन्द्रस्य तदा साध्यव्यतिष्ठत सोत्यासाध्य तु सोमसूर्यौ च काकुत्स्थशिवैश्रवणावपि वरुणश्चाग्निरिन्द्रश्च विजयम् प्रदिशन्तु ते गता भगवती रात्रिरहशिवमुपस्थितम् बुद्ध्यस्व राजशार्दूल कुरु कार्यमनन्तरम् ब्राह्मणा बलमुख्याश्च नैगमाश्चागतास्त्विहा दर्शनम् तेऽभि काङ्क्षन्ते प्रतिबुद्ध्यस्व स्तुवम् तम् तम् सदा सूतम् सुमन्त्रम् मन्त्रकोविदम् प्रतिबुध्य ततो राजा इदम् वचनमब्रवीत् राममानय सूतेति यदस्यभिहितो मया किमिदम् कारणम् येन ममाज्ञा प्रतिवाह्यते न चैव सम्प्रसुप्तोऽह मानयेहाशुराघवम् इति राजा दशरथः सूतम् तन्त्रान्वशात् पुनः स श्रुत्वा शिरसा प्रतिपूज्यतम् निर्जगामनृपावासान्मन्यमानः प्रियम् महत् प्रपन्नो राजमार्गम् च पताका ध्वजशोभितम् हृष्टः प्रमुदितः सूतो सर्वलोकस्य हृष्टवत् ततो ददर्श रुचिरम् कैलाससदृशप्रभम् रामवेश्मसु मन्त्रस्तु शक्रवेश्म समप्रभम् महाकपाटपिहितम् वितर्दिशतशोभितम् काञ्चनप्रतिमैकाग्रम् मणिविद्रुमतोरणम् शारदाभ्रगणप्रख्यम् दीप्तम् गन्धान्मनोज्ञान् विसृजद् दार्दुरम् शिखरम् यथा सारसैश्च मयूरैश्च विनदद्भिर्विराजितम् सुकृतेहामृगाकीर्णमुत्कीर्णम् भक्तिभिस्तथा मनश्चक्षुश्च भूतानामाददत्तिग्मतेजसा चन्द्रभास्करसङ्काशम् कुबेरभवनोपमम् महेन्द्रधाम प्रतिमम् मेरुशृङ्गसमं सूतो रामवेश्मददर्शः उपस्थितैः समाकीर्णम् जनैरञ्जलिकारिभिः उपादाय समाक्रान्तैस्तदा जानपदैर्जनैः रामाभिषेकसुमुखैरुन्मुखैः समलङ्कृतम् महामेघसमप्रख्यमुदग्रम् सुविराजितम् नानारत्नसमाकीर्णम् कुब्जकैरपि समाजियुक्तेन रथेन सारथिः राजकुलं राजकुलम् विराजयन् वरोथिना राजगृहाभिपातिना पुरस्य सर्वस्य मनांसि हर्षयन् ततः समासाद्य महाधनम् महत् प्रहृष्टरो मास बभूव स तत्र कैलासनिभास्वलङ्कृताः प्रविश्य कक्षास्त्रितशालयोपमाः प्रियान् वरान् राम मते स्थितान् बहून्यपोयशुद्धान्तमुपस्थितौ रथी स तत्र शुश्रावच हर्ष युक्ता रामाभिषेकार्थ कृताम् जनानाम् नरेन्द्र सोनोरभिमङ्गलार्थाः सर्वस्य लोकस्य गिरः प्रहृष्टाः महेन्द्र सद्मप्रतिमम् चवेश्वरा नमस्करम् यम् मृग पक्षिजुष्टम् ददर्श मेरोरिव शृङ्गमुच्चम् ततो महामेघमहीधराभम् प्रभिन्नमत्यङ्कुशमत्यसह्यम् रामोपवाह्यम् रुचिरन्द दर्श शत्रुञ्जयम् नागमुदग्रकायम् स्वलङ्कृतान् साश्वरथान्स कुञ्जरानमाख्य मुख्यांश धदर्श वल्लभान् व्यपोह्य सूतः सहितान् अवय प्रवेश सारथि प्रभूतरमक यथाणव इशे श्रीमद्राणे वाक आदि का्ये अयोध्या कांडे पंचदश